यतो नन्तशक्ते अनन्ता च जीवां यतो प्रमेयो गुणासे यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशम् नमामो भजाम यतस्याभिराशि जगसर्वमेतन् तथाब्जास नो वि स्वगोवि स्वगोप्ता तथेन्द्रादयोदेव संघा मनु तदा तं गणेशं नमामो भजाव यतो वन्निभानु भवो भूर्जलं च यत सागरश्चन्द्रमाव्यमवायु यत सा वराजम् ग मा वृक्षसङ्घा सदा तं गणेशं न मामो भजाम यतो दानवाकिन्नरायक्षसङ्घा यतश्चारणावारणाश्वापदाश्च यत पक्षिकीटा यतो विरुधश्च सदा तं गणेशं नमामो भजाम यतो बुद्धिरज्ञाननाशो मुक्ष यतः संपदं भक्ते सन्तोषिकाशु यतो विघ्ननाशो यत कार्यसेदे सदा तं गणेशं नमामो भजामो यतः पुत्रसम्पद् यतो वाञ्छितार्थो यतो भक्तविघ्ना तथा नेकरूपा यतश्चार्थधर्मो यतः काममोक्षो तदा तं गणेशं नमामो भजाम यतो नन्तशक्ति दशेषो बभूव धराधारणेनैकरूपेण शक्त यतो नैकधा स्वर्गलोकाहि नानां सदा तं गणेशं नमामो मामो भजाम यतो वेदवाचो विकुण्ठामनोभि सदा नेति नेति त्रियता गिरन्ति परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशम् मामो भजाम